हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्री अध्यात्मरामायणे अयोध्याखण्डे षष्ठ सर्गः श्रीमहादेव उवाच सुप्तं रामं समालोक्य गृहशोशुरु परिप्लुतः लक्ष्मणं प्राहक् विनयात् भ्रात पश्यसि राघवं शयनं कुशपत्रोघ संवे सीतया सहेते स्वर्ण पर्यक स्वीर्णे भवनोत्तम कैकय राखस् कारण विधि नंथरा बुद्धिमस्था कैकय पाप्माचर तुम्हार लक्ष्मण प्रा सके शुणु वचो मम कचे दुखच कचे स्वपूर्वाजितकर्म कर्मैव कारणं सुखदुःखयोः सुखस्य दुःखस्य न कोऽपि दाता परो ददाति इति कुबुद्धिरेषा अहं करोमि इति वृथाभिमरन् स्वकर्मसूत्र गथितो हि लोकमित्रुधा तेन द्वेष्य मध्यस्थबान्धव स्वयमेव चरन् कर्म तथा तत्र विभाव्यते सुखं वा यदि वा दुःखं स्वकर्म वशुभो नरः यद्यथागतं तत् भुक्त्वा स्वस्थमना भवेत् न मे भोगागमे वा न मे भोगविवर्जिते अगच्छत् तथा मागच्छतु अभोगवशुभो भवेत् यस्मिन् देशे च काले च यस्माद्वाह्येन केन वा कृतं शुभाशुभं कर्म भोज्यं तत्तन्नता अलं हर्ष विषादाभ्याम् शुभाशुभे फलोदये विधात्रावीतं यद्यत् तदलङ्घ्यं सुरासुरे सर्वदा सुखदुःखाभ्यां नरप्रत्यव रुध्यते शरीरं पुण्यपापाभ्याम् उत्पन्नं सुख दुःखवत् सुखस्यानन्तरं दुःखम् दुःखस्यानन्तरं सुखम् द्वयम् एतद्धि जन्तूनाम् अलङ्घ्यम् दिनरात्रिवत् सुखमध्ये स्थितं दुःखम् दुःखमध्ये स्थितं सुखम् द्वयम् अन्योन्यसंयुक्तम् प्रोच्यते जलभङ्गवत् तस्माद्धैर्येण इष्टानिष्टोपपत्तिषु न दृश्यन्ति न मुह्यन्ति सर्वं मायति भावनात् गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभ बभूव रामसलिलं दृष्ट्वा सुप्रातः समाहितः उवाच शीघ्रं सुदृढान् भावम् मानय सखे श्रुत्वा रामस्य वचनम् निषादा स्वयं वेव दृढान्नारम् अनिनाय सुलक्षणां स्वामिन्नातां नौका सीतया लक्ष्मणेन च बाह्वे ज्ञातिभि सादम् अयमेव समाहित तथेति राघवति ताम् आरोप्य शुभलक्षणां गुहस्य स्वयं चारोहतद्युतः आयुधादीन् समारोप्य लक्ष्मणोऽप्यारुरोह चाहन्वाहयामास ज्ञातिभि सहित स्वयं गङ्गा मध्ये गता गंगा प्रार्थयामास जानकी देवे गङ्गेन मस्तुभ्यं निवृत्तावनवासतः रामेण सहिताहं त्वाम् लक्ष्मणेन च पूजये इत्युक्त्वा परकुलं तौ शनैरुतीर्य जगमतुः भोपि राघवं प्राये गमिष्यामि त्वया सह अनुज्ञां देहि राजेन्द्र नो चेत् प्राणान् त्यजाम्यहम् श्रुत्वा नैषादिवचनम् श्रीरामः तं मथा ब्रवीत् दण्डके पुनरप्यहम् अयस्यां विद्धितं सत्यं रामभाषितं रामभाषितम् इत्युक्त्वा लिङ्गितम् भक्तम् समाश्वास्य पुनः पुनः निवर्तयामाशुगुणम् स्वपि कृत्वा ततो रामस्तु वैदेह्य लक्ष्मणेन समन्वितः भरद्वाजापदम् गत्वा बहिरुपस्थितः तत्रैकं बटुकं दृष्ट्वा रामप्रह च रामो सीता लक्ष्मणाभ्यां समन्वितः आस्ते बहि वनस्येति युच्यतां मुनिसन्निधौ तच्छ्रुत्वा पादयो पतितौ मुने स्वामिन् राम समागत्य मन स भार्य सानुज श्रीमान् आह मां देव सन्निभय भरद्वाजाय मुनये ज्ञापय स यथोचितम् तच्छ्रुत्वा भरद्वाजो मुनीश्वरः गृहीत्वार्घ्यं च भाद्यं च राम समीप्यमाययो यथा न्याय्यम् पूजयित्वा स लक्ष्मणम् अहमे पर्णशालाम्भो रामराजीवलोचन अगच्छे पादरजस पुनिः रघुनन्दन इत्युत्वा सह राघवौ भक्त्या पुनः पूजयित्वा चकारापीठ्यमुत्तमम् अद्याहं तपस पारं गतोऽस्मि तव सङ्गमात् ज्ञातं रामे तवो भूतम् चागामिकम् च यत् जानामि त्वाम् परात्मानम् मायया कार्यमानुषम् यदर्थम् अवतीर्णोऽसि प्रस्थितो ब्रह्मण पुर यदर्थम् वनवासस्ते यत्करिष्यसि वै पुरः जानामि ज्ञानदृष्ट्याहम् जातय त्वदुपासनात् इतः परम् त्वाम् किम् कृतार्थोऽहम् रघुत्तम यत् त्वं पश्यामि काकुत्स्थम् पुरुषम् प्रकृते परम् रामस्तमभिवाद्य सीता लक्ष्मणसंयुतः अनुग्राह्य त्वया ब्रह्मन् वयं क्षत्रिय बान्धव इति सम्भाषते न्योन्यम् उषित्वा मुनिसन्निधौ प्रातरुत्थाय यमुनाम् उत्तीर्य मुनिधारकैः ेन मनिना दृष्टमार्गेण राघवेययोः चित्रकूटाद्रिं वाल्मीकि यत्र च गत्वा रामोऽथ वाल्मीकि आश्रमम् ऋषिशङ्कुलम् नानामृगिरणं नित्यपुष्पफलकुलं तत्र दृष्ट्वा समासीनम् नमाम शिता रामौ लक्ष्मणेन च सीतया धृष्ट्वा रामं रमानाथम् जानके लक्ष्मणोपेतम् जटामृगोचमण्डितम् कन्दर्प सुदृशाकारम् कमनीयाम्बुये क्षणम् दृष्टैव स स्वतस्थौ विस्मया निमिषे क्षणः आलिङ्ग्य परमानन्दम् रामं हर्षाश्रुलोचन पूजयित्वा जगत्पूज्यं भक्त्यार्घ्यादिभिरादृतः फलमूलयितः मधुरै भोजयित्वा च लालितः राघवः प्राञ्जलिप्राय वाल्मीकिं विनयान्वितः वित्त्वाज्ञां पुरस्कृत्य दण्डका नागता वयम् भवन्तो यदि राजानन्ति किं वक्ष्याम्योऽत्र कारणम् यत्र मे सुखवासाय भवेत् स्थानं वदस्व शीतया शैत्यकालम् किञ्चित् सर्वभूतानि निवासजनानि हि एवं साधारणं स्थानं उक्तं ते रघुनन्दन सीतया सैतस्येति विशेषम् पृच्छदर्तव तद्वक्षामि रघुश्रेष्ठ यत्ते नियत मन्दिरम् शान्तानां समदृष्टीनाम् अधेष्टॄणां च तञ्जन्तुषु तमेव भजताम् नित्यम् हृदयम् ते हि मन्दिरम् तन्मन्त्रजापको त्वमेव शरणं गतः निर्द्वन्द्वो निस्य हृदयं ते सुमन्दिरं निरङ्कारिणशान्ता ये रागद्वेष वर्धिताय समरोष्टास्म कनका तेषां ते हृदयं गृहं त्वयि दत्तः मनोर्बुद्धिः यत्सन्तुष्टः सुधा भवेत् त्वयि सन्त्यक्त यो न दृष्ट्य प्रियम् प्राप्य प्रियं प्राप्य न दृश्यति सर्वम् मायेति निश्चित्य तम् भुजेत् तन्मनोगृहम् षड्भावादिविकान्यौ देहे पश्यति नात्मनि भयम् दुःखम् प्राणबुद्ध्यो निरीक्षते संसारधर्मे निर्वृक्ते तस्य ते पश्यन्ति ये सर्वगुहाशये चिन्धनम् सत्यमनन्तमेकम् अलेपकम् सर्वगतम् वरेण्यम् तेषां रुदब्जे सीतयावस निरन्तराभ्यास दृढीकृतात्मनां तत्पादसेवा परिनिष्ठितानां सीता समेत सुनमे राय नाम वर्ण्य कथम यदम राम ब्रह्मशी तहम पूरा निकिरातेशु किरात वर्धि जन्म मत मे शुद्रचार्य रत सदा क्षुद्रायाम् भवपुत्राय उत्पन्ना मे जितात्म तत संगम्य चौरोऽहम् अभवं पुरा धनुर्बाण धनो नित्यं जीवानामन्तकोपमः एकदा मुनयसप्त दृष्टा महति गानने साक्षात् मया प्रकाशन्तु ज्वलनार्क समप्रभान् धावं लोभेन तेषां सर्वे परिच्छतां गृहीतो काम तत्रा तिष्ठतिष्ठेति च ब्रवम् दृष्ट्वा मां मनयो पृच्छन् किं अहं ता तीश्ट न तीश्ट ब्रवं किञ्चित् आदातुम् मुनिषत्तमः पुत्रदाराः दन्ति भावोमेव भूक्षिताय तेषा संरक्षणाय चलामि गिरिकनरे ततो माम् उचितव्यग्रा पुच्छा कुटुम्बकम् योऽ यो मया प्रतिदिनं क्रियते पापसञ्चयः योऽयं तद्भागिनः किं वा नेति वेति पृथक् पृथक् वयं स्थास्यामः तावत् आगमिष्यसि निश्चय तथेत्युक्त्वा गृहं गत्वा मुनिभिः यदि दूरीदीर्तम् अपृच्छं पुत्रदारादीन् तैरुक्तोहं रघुत्तमः पापं पवैव तत्सर्वं वयं तु फलभागिनः तच्छ्रुत्वा जातनिर्वेदो विचार्य पुनरागमम् मुनयो यत्र तिष्ठन्ति कर्णपूर्णमानसः मुनीनां दर्शनादेव शुद्धान्त कर्णो भवत्यज्य दण्ड वयितोऽस्म्यहं रक्षद्धं मा मुनिश्रेष्ठा गच्छन्तं निरयर्णभम् इत्यग्रे पतितं दृष्ट्वा मा मूर्चुर्मुनिसत्तमः उत्तिष्ठतिष्ठे सफलमार्गमः उपदेक्षा महे तुभ्यं किञ्चित् तन्ते नैव मोक्षसे परस्परं समालोच्य दुर्वृत्तोऽयं द्विधमः उपेक्षयैव सद्वृत्तै तथापि शरणं गतः रक्षणीय प्रयत्नेन मोक्षमार्गोपदेशतः इत्युक्त्वा नाम क्षरपूर्वकम् एकाग्र मनसा त्रय मरेति जप सर्वदा आगच्छाम पुनर्यावत् तावदुक्तं सदा जप सर्वे मनयो दिव्यदर्शनाः तां यथोपदिष्टं तैः तथा करव मञ्जसाय जपन् एकाग्र मनसः एवं बहु चिते काले गते निश्चलरूपिणः सर्वसङ्गीनस्य वल्मीको भून् मम उपरि ततो युग सहस्रान्ते ऋषये पुनरागमन् मा मोच निष्क्रमस्वेति तच्छ्रुत्वा तूर्णमुत्थितः वल्मीकान्निर्गतश्चाहं निहारादिव भास्करः मम अप्याहु मनिगणः वाल्मीकितं मनेश्वर वल्मीकम्भवो यस्मात् द्वितीयं जन्मते भवे इत्युक्ता ते यजुर्दिव्य गतिं गुरुकुलोत्तमः अहं ते रामनाम्नश्च प्रभावादि दृशो भवम् अद्य साक्षात् प्रपश्यामि स शीतं लक्ष्मणेन च रामं राजीवपत्राक्षं त्वम् मुक्तो नात्र संशय हे राम भद्रं ते स्थलं वै दर्शयाम्यम् एवम् मुक्तः मुनिश्रीमान् लक्ष्मणेन समन्वितः शिष्ये ब्रवरीव गत्वा मध्ये पर्वतगङ्गयोः तत्रशालां सुवितॄणां कालमायामासवासभ प्राक्पश्चिमं दक्षिणो दक्षिण शोभनं मन्दिरद्वयं जानक्या सहितो रामः लक्ष्मणेन समन्वितः तत्र देवसदृशः यवसन् भवनोत्तमे वाल्मीकिना तत्र सुपूजितोऽयं रामस्य सीतः स लक्ष्मणेन देवैर्मुनीन्द्रये स्वर्गे यथा देव पति सच्य इति श्रीमदध्यात्मरामायणे मामि श्रुतं वादे अयोध्याखण्डे शच्य सर्ग श्रीसीतारामचन्द्रार्पणमस्तु